महानारायणोपनिषत् चतुर्थः प्रश्नः श्रीगुरुभ्यो नमः हरिः ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करमावहे शान्तिः शान्तिः शान्तिः हरिः ओम् अम्भस्य पारे भुवनस्य मध्ये नाकस्य पृष्टे महतो महीयान् शुक्रेण ज्योतिगंसि प्रजापति प्रजापतिश्चरति गर्भे अन्तः यस्मिन् निदगंशं च विचैति सर्वं यस्मिन् देवा अधिविश्वे निषेधुः तदेवभूतं भूतं इदं तदक्षरे परमे व्योमन् एनामृतं खं च दिवं महिं च एनादित्यस्तपति तेजसा व्राजसा च समुद्रे कवयो वयन्ते यदक्षरे परमे प्रजा यत प्रसूता जगत प्रसूतितो येन जीवान् व्यतिसर्जभूम्या आं यदोषधिभिः पुरुषा आन्नपशुगंश्च विश्वे स भूतानि चराचराणि अतः परं नान्यदलीयसुगं हि परा आत्परं जन्महतो यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसपरस्था तदे वरतं तद् सत्यमाहुस्तदेव ब्रह्मपरमं इष्टा पुरुतं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः तदेवाग्निस्तद्वायुस्तत्सूर्यस्तद् चन्द्रमा आह तदेव शुक्रममृतं तद्ब्रह्म तदापस्व प्रजापतिः सर्वे निमेषा जग्गिरेविद्युतपुरुषादधि कलामुहूर्ता कार्ष्ठा आश्चाहोरात्रश्च सर्वतः अर्धमासां मासारितव संवत्सरस्य कल्पन्तां स आपतवे उभे इमे अन्तरिक्षमथोऽशु वः नैदमुर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत तस्ये न तस्येषे कश्चन न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनं हृदा मनिषा मनसाभिक्लिप्तो य एनं विदुर्मितास्ते भवन्ति अभ्यसम्भूतो हिरण्यगर्भ इत्यष्टौ एष देवा देवः प्रदिशो नु सर्वाः पूर्वो हि जातः स उगर्भे अन्तः सविजायमानः स जनिष्यमाण प्रत्यङ्मुखा आ तिष्ठति मुखः। विश्वतक्षुरुत विश्वतोमुखो विश्वतो हस्त उत विश्वतस्पा स्वबाहोभ्यां नमति सपत्रै पतत्रै द्यावापृथवी जनयन्देव एकः वेनत्तत्पश्यन्विश्वा भुवनानि विद्वान् यत्र विश्वं भवत्ये कणिलं यस्मिन्निदगं श वै विचैकगंश ऊत प्रोतश्च विभो प्रजासु प्रतद्धोचे अमृतं नु विद्वान् गन्धर्वो नामनहितं निहितं गुहासु त्रीणि परा निहिता गुहासु यस्तद्भेदसवितो पिता सतो स नो बन्धुर्जनिता स विधाता धामानि वेदभुवनानि यत्र देवा अमृतमानसाना स्थिति ये धामा आन्यव्यैरयन्त परिध्या वा पृथिवीयन्ति सद्य परिलोकान् परिदिश परिशुवः ऋतस्य तन्तुम् पिततम् विततम् विचृत्य तदपश्यत्तदम् भवत् प्रजासु परित्यलोकान् परित्यभूतानि परित्य सर्वा प्रदिशो प्रजापतिप्रथमजारितस्यात्मनात्मानमभिसम्बभूव सदसस्पतिमभ्युतं प्रियमिन्द्रस्य काम्यं सनिं मेधा मयासि सम् उद्देऽप्यस्वजातभेदोपघ्नन् निरतिन् धर्मम् जीवनं च दिशो मनोहिगं सिज्जात वेदो गामस्वं स्वं पुरुषं जगत् अविभ्रदग्न आगहि श्रियामा परितापत् पुरुषस्य विद्म सहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्रप्रचोदया आत् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदया आत् तत्पुरुषाय विद्महे वक्रचुण्डाय धीमहि तन्नो दन्ति प्रचोदया आत् तत्पुरुषाय विद्महे चक्रचुण्डाय धीमहि तन्नो नन्दि प्रचोदया आत् तत्पुरुषाय विद्महे महासेनाय धीमहि तन्सन्मुखं प्रचोदयात् तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुणप्रचोदयात् वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ॐ ब्रह्म प्रचोदयात् नारायणा विद्महे वासुदेवाय धीमह तो विष्णु प्रचोदया आज्रनखा विदे तृक्षणा धीमे तो नारिह प्रचोदया भास्कर विमहे महद्युतिराय धीमे तो आदि प्रचोदयात वैश्वनराय विद्महे लालीलाय धीमहि तन्नो अग्निप्रचोदया आत् कात्यायनाय विद्महे कन्याकुमारी धीमहि तन्नो दुर्गी प्रचोदया आत् सहस्रपरमादेवी शतमूला शताङ्कुराम् सर्वगं हरतु मे पापं दुर्वादुःस्वप्ननाशनी काण्डात्काण्डात् प्ररोहन्ति परुषपरुष पपि एवानो दुर्वे प्रतनुसहस्रेण स तेन च या स तेन विरोहसि तस्या आस्ते देविष्टके विधे वयम् अश्वक्रान्ति रथक्रान्ति विष्णुक्रान्ति वसुन्धरां तिरसा धारयिष्यामि रक्षस्व पदे पदे पदे भूमिर्धेनुधरणि लोकधारिणी उद्धृतासि वराहेन कृष्णेन सतमाहुना मृतिके हनमे पापं जनञ्जन्मया दुष्कृततं कृतम् मृतिके अब्रह्म दत्तासि कास्यपि नाभिमन्त्रिता मृत्तिके देहि मे पुष्टिं तैः सर्वं प्रतिष्ठितम् मृत्तिके एप्रतिष्ठिते सर्वं तन्मे निर्गुणमृत्तिके तया हे हतेन पापेन गच्छामि परमां गतिम् यत इन्द्र भयामहे ततो नो अभयं कृधि मघवत्सन्धि तव उन्तन्न उतये विदुषो मिमृधो जही स्वस्तिदा विषस्पतिवृत्रहां विमृधो वसी विषेन्द्रः पुर एतु न स्वस्तिदा अभयङ्करः स्वस्ति न इन्द्रो वृद्धश्रवा स्वस्ति न पूषा विश्ववेदा स्वस्ति नस्ताक्षो अरिष्टणेमि स्वस्ति नो बृहस्पतिर्ददातु आपा अन्तमन्यु त्रिपलं प्रभर्मा ध्वनिसीमि चरुमागं छरुमागं ऋजिषे सोमो विश्वा आन्नतसावनाले नार्वागेन्द्रं प्रतिमानानि देभुः ब्रह्मजज्ञानां प्रथमं पुरस्ताद्विषीमत सुरुचो वेन आवह बध्न्या उपमा अस्य विष्ठास्तश्च योनि मसतश्च विवह सोना भवा निक्षरा निवेशनी यच्छा नः सर्वं स प्रथम प्रथा गन्धद्वारां दुराधर्षं नित्यपुष्टां करीषिणीम् ईश्वरीयं सर्वभूतानाम् तामिपोह्विपुह्वै श्रियं श्रि मे भजतु अलक्ष्मी मे नश्यतु विष्णुमुखा वै देवा छन्दोभिरिमाल्लोकानपजय्यमभ्यजयन् महागम् इन्द्रो वज्रबाहुषोडशी शर्म यच्छतु स्वस्ति नो मघवा करोतु हन्तु पाप्मनं यो अस्मान्द्वेष्टि सोमानगं शरणं कृणुहि ब्रह्मणस्पते कक्षीवन्तं य औसिजं शरीरं यज्ञसमलं कुसीदं तस्मिन् प्रसीदतु यो चरणं पवित्रं विततं पुराणं येन पूतस्तरति दुस्मृतानि तेन पवित्रेण स्रद्दधेन पूता अतिपाप्मनमां तजोषा तरेम सजोषा इन्द्रशगणो मरुद्भिः सोम जहि शत्रुघं रपमृधोन्नदस्वाथाभयं शृणुहि विश्वतो नः सुमित्रान् आप ओषधय सन्तु दुर्मित्रास्तस्मै भूयासूर्योऽस्मान् देष्टियं च वयं विस्मः आपोहिष्ठां मयो भुवस्तान उर्जेदसातन दधातन चक्षसे यो व शिवतमो रसस्तस्म भाजयते हनः मातरः तस्मा अरङ्गमामभूयस्य क्षया जजिन्वथ आपो जनयथा च नः वरुणं प्रपद्ये तीर्थं मे जन्मया भोक्तं साधूनां पापेभ्यश्च प्रतिग्रह यन्मे मनसा वाचा कर्मणावा दुष्कृतं कृतं तन्न इन्द्रो वरुणो बृहस्पतिसविता च पुनन्तु पुनः पुन नमोऽग्नये ऐप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽध्यः यदपां क्रूरं यद यदसांतं यदशान्तं तदपगच्छताम् अत्या सनादतिपानायद्यच्च उग्रा प्रतिग्रहा तन्नो वरुणो राजा पालिना आह्वमरसतु तोऽहमपापो विरजो निर्मुक्तो नाकस्य पृष्ठमारुह्य गच्छेद्ब्रह्म च लोकतां यच्चाप्सुवरुणः स पुनात्वघमर्षणः इवं मे गङ्गे यमुने सरस्वतीसुतन्द्री स्तोमगम् स अशनिया मृधे वितस्तया जीविकी शुश्यु सो मृत ततो चाभतोध्ययत तत्रिजात तत सम्रो अर्णव स मुद्रादर्णवादि संवत् अजात अहोरात्राणि विदध्य स्वस्य मिथतो वशी सूर्याश्चन्द्रमसौ धाता यथा पूर्वमकल्पयत् दिवं च पृथिवीं चान्तरिक्षमथोऽसु वः यत्पृथिव्यागं रजः स्वमातरिक्षे विरोदसी इमागस्तदापो पुनन्तु बसव पुनातु वरुण पुनात्वभमर्षणः एष भूतस्य मध्ये भुवनस्य गोप्ताम् एष पुण्यकृतां लोकान्ये स मृत्योर्हिरण्मयं दावापृथिव्योर्हिरण्मयं सगं श्रितगं सुवः धनः सुवः सगं सुषाधिः आर्द्रं ज्वलन्ति ज्योतिरहमस्मि ज्योतिर्ज्वलन्ति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहा आम् अकार्यकार्यवकिर्णिस्तेनो भ्रूडः वरुणोपां मघमर्षणस्तस्मा पापात्रमुच्यते रजो रोदयस्व प्रवदन्ति धीराह आक्रा आं समुद्रप्रथमे विधुर्मञ्जनयन प्रजा भुवनस्य राजा आं पवित्रे अधिशानो अव्ये बृहः वावृधेषु वान इन्दुः जातवेदसेषु न वाम सोममरातीयतो निदधाति वेदः च न पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ताम तामग्निवर्णात्तपसा दुर्गां देवीगं शरणमहं प्रपद्ये सुतरसितरशे नमहम् अग्ने त्वं पारयानब्जोऽस्मान् स्वस्ति बिरति दुर्गाणिविश्वाश्च पृथ्वी बहुला न उर्वीभवातु कायतनयायशय्यो विश्वानिनो दुर्गहा जातवेद सिन्धुं न नामा दुरितातिपर्षे अग्ने अत्रिवन्मनसागृणानोस्माकं बोध्यपितातनूना आम् वितनाजितगं सहमानमोग्रमग्निकम्भुवेम परमासस्था आत् क्षणपर्षदति दुर्गाणि विश्वाछामद्धेवो अतिदुरितात्यग्निः रत्नोषिकमेढ्यो अध्वरे सुसनात्य होतानभ्यश्च सस्ते स्वाञ्च आग्नेतनुवं प्रियस्वास्मभ्यं च सौभगमायजस्व गोभिर्जुष्टमयुजोर्निषिक्तं तवे ऐन्द्रविष्णोरनुसञ्चरेम नाकस्य पृष्टमभि संवशानु वैष्णवीं लोकय ॐ कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गी प्रचोदया आत् ॐ भूरन्नभग्नये पृथिव्यै स्वाहा भुवोर्णं वायभेन्तरीक्षाय स्वाहा सुवरन्न आदित्याय दिवे स्वाहा भभुवस्वरन्नं चन्द्रमसे दिभ्यः स्वाहा नमो देवेभ्यः स्वधापितृभ्यो भू॒र्भुवःस्वरन्नमोम पुरग्नये पृथि॒व्यै स्वाहा भुवाय विन्तरि॑क्षाय स्वाहा शुभरादित्याय दिवे स्वाहाभूर्भुवस्व॒ चन्द्र॑मसे दिव्य स्वाहा॑ नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवः सुव भूरग्नये च पृथिव्यै च महते च स्वाहा भुवो वायवेचान्तरिक्षाय च महते च स्वाहा सुवरादित्याय च दिवे च महते च स्वाहा भूर्भुवस्व चन्द्रमसे च नक्षत्रेभ्यश्च दिभ्यश्च महते च स्वाहा नमो देवेभ्य स्वदा पृथिभ्यो भूर्भुवस्व हरो पाहिनो अग्न एनसे स्वाहा पाहिणो विश्वभेदसे स्वाहा यज्ञं पाहि भावसो स्वाहा सर्वं पाहि सदक्रतो स्वाहा पाहिनो अग्न एकया पाश्युतद्वितीयया पाहुर्जं तृतीयया पाहि गीर्भिश्च तत्रिभिवचो स्वाहा यच्छन्दसामृथभो विश्वरूपभ्य छन्दागं स्याविवेश स चागं शिक्य पुरो वाचोपनिषदिन्द्रो ओज्येत इन्द्रियाय ऋषेभ्यो नमो देवेभ्य स्वधापितृभ्यो भूर्भुवस्वछन्दो नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणम् धारयिता भूयासं कर्णयोः श्रुतुं मात्योष्वं नमामुस्य ॐतं तपस्तत्यं तपःस्रुतं तपःसान्तं तपोदमस्तप समस्तपो दानं तपो यज्ञं तपो भुभुवः यथा वृक्षस्य सुस्पितस्य दूरान् गन्धो वा आत्येवं पुण्यस्य कर्मणो दूराद् गन्धो वाति यथा सि धारां कृते वहितामवक्त्रा यद् युवें यद्युवे युवे हवा वन्विह्वहिष्यामि कर्तं पतिष्यामित्येवममृता धात्मानं जुगुप्से एत अणोरणीयान्महतो महीयान्नात्मा गुहायां निहितोऽस्य जन्तोः तमक्रतुं पश्यति वीतशोको धातुः प्रसादान् महिमानमीशम् सप्त <coughs> प्राणा प्रभुवन्ति तस्मा सप्तार्तिसस्मद्मिद सप्त सप्त इ लोका य सुच चरती गुहाशया निहिता सप्त स अतः सुद्रग्र्य संदते सिंधव शूप्च विश्वा ओषधन स भूतरात्मा ब्रह्मादेवाना आं पदवीकवीनां ऋषिर्विप्राणां महिषो मृगाणा आं शेनो गृद्धा नागं सधितिर्वनानागं सोम पवित्रमत्येतिरेभन्नाम् अजामेकां लोहितः शुक्लकृष्णां बण्डीप्रजां जनयन्ति गं स्वरूपाम् अजोषेको जुषमाणोऽनुशेते जहा आतीनां भुक्तभोगामजोऽण्य हवंसशुचिसद्वसुरन्तरिक्षसद्धोता वेदि सदतिधिर्जुरोणसत् नृषद्वरसदृतसद्भ्योमसद्वब्जातो जा ऋतजा अजुजातं बृहत् घृतं निमीक्षि रे घृतमस्य योनि घृते श्रितो घृतमुभस्य धाम अनुश्वधमावह मादयस्व स्वाहा कृतं वृषभक्ति हव्यम् समुद्रा दुर्विर्मधुमागम् उदार नुपागं सुनाशमृतत्वमानट यदस्य राम गुह्यं जधर्ति ममृतश्च नाभिः वयं नाम प्र प्रं बभ्रवाम घृतेनास्मिन् यज्ञे धारयामा नमोभिः उपब्रह्मा शृण्वच्छस्य मानं चतुशृङ्गोपमेद्गौर एतत् चत्वारि अस्य पादाद्वे शरीषे अस्य त्रिधा बद्धो वृषभो रोरवीति बहो देवो मर्त्यकम् अविवेश त्रिधा हितं प्रणिभिगुह्यमानं गवि देवासो घृतमन्नविन्दन इन्द एकगं सूर्य एकं ज जा जानवेनादेकग्रं स्वधयानिष्टक्षुः यो देवाना आं प्रथमो पुरस्ताद्विस्वाधियो रुद्धो महर्षिः रन्नगर्भं पश्यत जायमानवं स नो देव शुभया स्मृत्या संयुनक्तो यस्मात्परं नापरस्मस्ति किञ्चिद्यमान्नाडीजोल जायो कश्चित् वृक्ष इव स्तब्धोज वितिष्ठन्त्येकस्तेनेदं पूर्णं पुरुषेण सर्वं न कर्मणा न प्रजयान धनेन त्यागेनैके अमृतत्वमानशुः परेण नाकं निहितं गुहायां बिभ्राजं दे तद्यतयो वेदान्तविज्ञानसुनिश्चिता वे यासंन्यासयोगादशुद्धसत्त्वा आह ते, ते ब्रह्मलोके तु परा अन्तकाले परामृतात् परिमुच्यन्ते सर्वे ए दह्वं विपापं परमे अस्मभूतं यत्पुण्डरीकं पुरमद्य सगस्थम् तत्रापि द्रह्वं गगनं विशोकस्तस्मिन् यो वेदादौश्वर प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स महेश्वरः सहस्रशीर्षं देवं विस्वाक्षं विश्वशम्भुवम् विश्वं नारायणं देवमक्षरं परमं पदं विश्वतः परमानित्यं विश्वं नारायणगम्भरिं विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवते पतिं विश्वस्यात्मेश्वरगं साश्वतगं शिवमच्युतं नारायणं महागेयं विश्वात्मानं परायनम् नारायणपरो ज्योतिरात्मा नारायण परा नारायण परं ब्रह्म तत्त्वं नारायण परा नारायणपरो ध्याता ध्यानं नारायण परा यच्च किञ्चित् जगत् सर्वं दृश्यते एूयते पिबा अन्तर्बहिश्चतः सर्वं व्याप्य नारायण स्थिता अनन्तमव्ययं कविगं समुद्रेन्तं विश्वशम्भुवम् पद्मकोशप्रतिकाशगं हृदयं चाप्यतोमुखम् अहो निशावितशान्तेनाभ्यामुपरि तिष्ठति ज्वालमालाकुलं भाति विश्वस्यायतनं महत् महत। शिलाभिस्थूलं मत्या कोशसन्निभम् तस्यान्ते सुशिरगं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितं तस्य मध्ये महान् अग्निर्विश्वार्चिविश्वतोमुख सोग्रभोग्य भजन्तिमजरकवी तेजगोर्ध्वमधः सायि रस्मयस्तस्य सन्ततां तन्तापयति स्वं देहमापादतलमस्तक तस्य मध्ये वह्निशिखा अणीर्यो ऊर्ध्वा व्यवस्थितः लीलतो यदमध्यस्था विद्युल्लेखे भव स्वरा नेवारसुकवत्तन्वीपीता वा तस्या आ मध्ये परमा आत्मा व्यवस्थितः ब्रह्म शशिवः हरिसेन्द्र सोऽक्षर परमश्वर आदित्यो वा एष एतन्मण्डलं तपति तत्र तारितस्तदुचामण्डलगं सरिचां लोकोऽथ य एष एतस्मिन् मण्डले दानि सामानि ससाम्नाम लोकोत य एष एतस्मिन् मण्डल्मण्डलेर्चसि मंदल पुरोषस्तानि यजुगंसि स यजुषा मण्डलगं स यजुषां लोक सैषा त्वय्येव विद्या तपति य एषो आदित्यो वैतेज ओजो बलं यशश्चक्षुस्तोत्रमात्मा मनो मन्युर्मनुमृत्यो सत्त्वो मित्रो भायुराकाशप्राणो लोकपालक किं त्वं तत्सत्यमन्नामृतो जीवो विश्वक्रतमस्वयम्भूब्रह्मैतमृत एष पुरुष एष भूतानाम् मधिपतिब्रह्मणस्यायुज्यगं स लोकतामाप्नोत्येतासाम् देवदेवतानागं सायुजगं साष्टितागं समानलोकतामाप्नोति सा य एवं वेदे युपनि सत् निधनपतये नमः निधनपतान्तिकाजनमः ऊर्ध्वा जनमः हृषलिङ्गाजनमः हिरण्याजनमः हिरण्यलिङ्गाजनमः सुवर्णाजनमः सुवर्णलिङ्गाजनमः दिव्याजनमः दिव्यलिङ्गाजनमः भवाजनमः भवलिङ्गाजनमः सर्वाजनमः परमलिङ्गाजनमः शिवाजनमः शिवलिङ्गाजनमः डलाजनमः डललिङ्गाजनमः आत्माजनमः आत्मलिङ्गाजनमः परमाजनमः परमलिङ्गाजन एतोभस्य सूर्यस्य सर्वलिङ्गं स्थापयति पाणिमन्त्रं पवित्रं सद्यो जातं प्रपद्यामि सद्यो जाताय जा वै नमो नमः भवे भवे नाति भवे भव स्वां भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नभो बलविकरणाय नमो बलाय नभो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः अघोरे एभ्योऽथ घोरे एभ्यो घोरघोरतरेभ्यः सर्वे रेभ्यः सर्वे अभ्या। सर्वे भ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र रुद्रप्रचोदया आत् ईशान सर्वविद्यानामीश्वर सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा ब्रह्मा शिवो मे अस्तु सदाशिवो नमो हिरण्यबाहवे हिरण्यवरणाय हिरण्यरूपाय हिरण्यपतयेकापतये उमापतये पशुपतये नमो नमः ऋतगं सत्यं परं ब्रह्मपुरुषं कृष्णपिङ्गलम् ऊर्ध्वरे तं विरूपाक्षं विश्वरूपाय वै नमो नमः सर्वो वै रुद्रस्तस्मै रुद्राय नमोऽस्तु पुरुषो वैरुद्रः सन्महो नमो नमः विश्वं भूतं भुवनं चित्रं बभुधा चातं जायमानं सर्वोशेषरुद्रस्तस्मै रुद्राय नमोऽस्तु कद्रुद्राय प्रचेतसे मेढुस्तमायतव्यसे वोचेवा सन्तमगम्भिरे सर्वोशेषरुद्रस्तस्मै रुद्राय नमोऽस्तु यस्य वैकङ्गत्यग्निहोत्र हवळीभवति प्रत्येवास्याहुतयस्तिष्ठन्त्यथो प्रतिष्ठितै गुणस्वपाय इति पञ्च अदितिर्देवा गन्धर्वा भाता मेदनी महता महि सावित्री गायत्री जगत्तुर्वी पृथिवी बहुला विश्वा भूता कतमाकाया सा सत्येत्यमृतेति वसिष्ठ आपो वा इदगं सर्वं विश्वा भूतालाप प्राणा वा आपः पथव आपोन्न मापो मृतमाप सम्रापो विरालाप स्वरालापश्चन्द छन्दागस्यापो ज्योतिगस्यापो यजुगस्याप सत्यमाप सर्वा देवता आपो भुर्भुवस्वराप ॐ आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् यदच्छेष्ठं मभो ओज्यं यद्वा दुश्चरितं मम सर्वं पुनन्तु मामापो सतां च प्रतिगृह्णङ्ग अग्निश्च मामन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यद् यद्वा पापमकारसं मनसा वाचा हस्ताभ्यां पद्भ्यां उद्रेण सेस्नाम अतस्त यत्किञ्च दुरितं मयि इदमहं मामृतयोनौ सत्ये ज्योतिषीजुहोमि स्वाहा सूर्यस्य मां मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यद्रात्रिया पापमकारषम् मनसा वाचा हस्ताभ्यां पद्भ्याम् उदरेण सृस्नां रास्तेस्तदवलुम्पतो यत्किञ्च दुरितं मयि इदमहं मामृतयोनौ सूर्ये ज्योतिषेजुहोमि स्वाहा ॐ मित्येकाक्षरं ब्रह्म अग्निर्देवता ब्रह्म इत्यारसं गायत्रं छन्दं परमात्मम् सरूपं सायुज्यं विनियोगम् आयातु वरदाद्देवि अक्षरं ब्रह्मसमीतं गायत्रीं छन्दसां मातेदं ब्रह्मजुषदस्वमे यदह् कुरते पापं तदह् आत् प्रतिमुच्यते यद्रात्र्या आत् कुरुते पापं तद्रात्या आत् प्रतिमुच्यते सर्ववर्णे महादेवी सन्ध्याविद्ये सरस्वती ओजोषि सहोसि बलमसि भ्राजोषि देवानां धामनामसि विश्वमसि विश्वायु सर्वमसि सर्वायुषविभूरो गायत्री मावाहयामि सावित्री मावाहयामि सरस्वती मावाहयामि चन्दरसिवाहयामि त्यमावाहयामि गायत्र्या गायत्री छन्दो विश्वामि ऋषि सविता देवताग्निर्मुखं ब्रह्माचिरो विष्णुर्हृदयं रुद्रसिखा पृथिवी योनि प्राणापानं ज्ञानो दानसमाना स प्राणाश्वेतवर्णा साङ्ख्यायनः सर्वोत्रा गायत्री चतुर्वीगंसत्यक्षरात्रिपदात् षट् केः पञ्चशीर्षोपनयदे विनियोग ॐ भू ॐ भुवः ओगं शिवः ॐ महः ॐ जनः ॐ तपः ओगं सत्यम् ॐ तस्य वितुर्वरे एण्यं भर्गो देवस्य धीमहि यो नः प्रचोदयात ॐ मापू ज्योतिरसोऽमृतं ब्रह्म भृभुव सुवरोम् उत्तमे शिखरे जाते भूम्यां पर्वतमूर्धने ब्राह्मणे एभ्योऽभ्यनुज्ञाता गच्छन् देवी यथा तृतो मया वरदा वेदमाता प्रचोदयन्ति पवने एद्विजाता आयो पृथिव्यां द्रविणं ब्रह्मवरच संवह्यं दत्त्वा प्रजातुं ब्रह्मलोकं गणेसूर्य आदित्यो न प्रभावात्यक्षरं मधुक्षरन्ति तद्रसं सत्यं वै तद्रसमापो ब्रह्मगरभुवसुवरो ब्रह्ममेतुमां मधुमेतुमां ब्रह्ममेव मधुमेतुमां यास्ते सोम प्रजावस्वभीषोऽहं दुःस्वप्नहं दुरुश्वः यास्ते सोम प्राणाग्रस्तां जुहोमि चितुपर्णमयाचितं ब्राह्मणाय दद्यात् ब्रह्महत्यां वा एते घ्नन्ति ये ब्राह्मणातिषु पर्णं पठन्ति ते सोमं प्राप्नुवन्ति आसहस्रात् पङ्क्तिं पुनन्ति ॐ परं मृत्यो अनुपरे हि पन्थां ध्यस्ते स्वा इतरो देवयाना आत चक्षुष्मते शृण्वते ते एव ब्रवीमि प्रजागमृजुषो मोतवीरान् वातं प्राणं मनसान्वारभामहे प्रजापतिं यो भुवनस्य गोपाः स्रायताम् पात्वगहं सोज्योकिं पात्वगहंसो ज्योगिं जोग्जीवाचरामसीमयी अमुत्रभूयाद्दधम्यद्यद्यमस्य बृहस्पते अविशस्तेरमुञ्च प्रत्योहतामश्विनां मृत्योमस्मा देवानामग्नेमिषजा सचिवे हरिगं हरन्त मनुयन्ति देवा विश्वस्येशानो वृषभं मति नाम ब्रह्मस्वरूप मनुमेधमागाधयनं विवधे विक्रमस्व शल्कैरग्निमिन्धाना उभौ लोकौ स उभायो ओल्लोकयोरनिध्वाति मृत्युं तराम्यं मा छिद्रो मृत्यो मा वधिर्मा मे बलं विभ्रो मा प्रमोषिः प्रजां मा मे रिजिष आयुर्रुग्र निचक्षसं ता हविषा विधेम मा नो मानो अर्भकं मान उक्षन्तमुत उक्षितम् मानो वधि पितरं मोतमातरं प्रियामा मा नस्त्वन्वो रुद्ररीरिषः मा नस्तुकेतनये मान आयुषिमानो गोसुमानोऽश्वे सुरीरिषः वीरान्मानो रुद्रभामिनो बधिर्हविस्मन्तो नमसा विधेमते